स्वागतम् आरम्भं कुर्मः राधा भगिनी भवती गायति आरम्भे आं नमोस्तुते व्यास व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः सर्वोपनिषदो गावो दूक्ता गोपालनन्दनः पार्थो वत्सुतिर्भोक्ता पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिभिर्ध्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् आरम्भम् कुर्मः आरम्भे तु गीताश्लोकम् स्वीकृत्य अनम गीता पुस्तकत पठन अनंतरम कथाया पठन तथे क्रमेण वैम गो आद श्लोक पशे त्र अ श्लोक अष्ट अक श्लोक निमिषम् hmm. hmm. अम्बिकापति महोदय भवान् पठति वा श्लोकम् महोदय श्रूयते क्षम्यताम् अस्तु अस्तु अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरं य प्रा प्रयाति समद्भावं याति नास्त्यत्र संशयः यः प्रयाति यः प्रयातः तत्र सः मद्भावं तत्र सः मद्भावम् एको आगच्छति खलु एको आगच्छति खलु हा सर्वे एकवारं म्यूट् कुर्वन्तु एकवारं अस्तु पुनः एकवारम् अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम् यः प्रयाति समद्भावं याति नास्यत्र संशयः वस्तुतः तत्र अस्ति अन्तकाले सन्धिविग्रहम् कृत्वा अंतकालेच च एव स्मरन् स्मरन् मुक्त्वा कलेवरम् यः प्रयाति सः मद्भावं याति नास्ति अत्र संशयः अधुना अस्माकं गीतासोपानं गीतासोपानं प्रथमः भागः तत्र अस्माकं विषयः अस्ति अस्ति नास्ति तथैव परन्तु वयं किं कुर्मः श्लोकं पश्यामः श्लोकस्य विषयस्य चिन्तनं कुर्मः अनन्तरम् अभ्यासं कुर्मः गीतासोपानं पुस्तकतः अनन्तरं श्लोकम् आधारीकृत्य तत्र एका कथा तस्यापि पठनं भवेत् श्लोकस्य अर्थं किम् पश्यामः तत् भगवान् वदति अन्तकाले च माम् एव स्मरन् मुक्त्वा कलेवरं यः प्रयाति सः मद्भावं याति अत्र प्रयाति याति याति प्रयाति प्र इति उपसर्ग प्रिफिक्स् इति प्रयाति याति नास्ति अत्र संशयः अत्र संशयः नास्ति कस्य संशयः नास्ति अंतकाले च माम एव माम् इत्युक्ते अत्र माम् इत्युक्ते माम् इत्युक्ते वदति वा अम्बिका तत्र परमात्रा माम एव स्मरन् काम स्मरन् माम एव परमात्मनः परमात्मनः स्मरणं कृत्वा कलेवरं कलेवरम् इत्युक्ते किं कोऽपि जन शरीरं शरीरं तत्र प्राणरहितशरीरम् इति कलेवलं यः प्रयाति या या इत्युक्ते गमनं या गच्छति या प्रापणे इति धातु अस्ति प्रयाति इत्युक्ते गच्छति हा अत्र या प्रापणे इत्युक्ते तत्र गत्यर्थक् एव धातु परन्तु यदा प्र उपसर्ग आगच्छति चेत् एकनिमिषं वक्तुं शक्यते खलु विवाह प्रयाणमिति क्षम्यतां जस्ट् यू मि वन् मिनिट् हा एकनिमिषं तत्र क्षम्यता क्षम्यता तयाटी यहां भगिनी तत्र यह यह उतवती तयाण प्रयाण यहाँ प्रयाण कौती यहाँ गाती आत्मा पर परमात्मस्व पर ना मद्भव परम भाव परमात्मस्वूप या प्राती अशय निश्चय सह मद्भ प्राप्ति तमी संशय ना एव। संशय नास्ती है, संशय है यः प्रयाति यः प्रयाणं करोति प्रयाणं करोति अन्तिमकाले हा अन्तकाले तत्र किं भवति ह माम् एव स्मरन् अन्तकाले अपि माम एव स्मरति माम एव स्मरन् शरीरं त्यजति हा शरीरं परित्यज्य इति वक्तुं शक्नुमः शरीरं परित्यज्य यः माम् एव स्मरोति अन्तकाले सह सः असंशयः माम् एव प्राप्नोति अत्र पश्यन्तु नास्त्यत्र इति अस्ति नास्ति अत्र नास्ति अत्र तत्र सन्धेः नाम जानाति वा कोऽपि नास्त्यत्र यणसन्ति यणसन्ति इत्युक्ते तत्र इकारस्य यकार यण हा किञ्चित् व्याकरणस्य विषये संक्षेप्तया वदामि तत्र इको यणचि इति एकं सूत्रमस्ति इकः स्थाने यण् आगच्छति हा इकः इक इति एकः तत्र प्रत्याहारः यण् अपि प्रत्याहारः इकस्थाने यण् आगच्छति इत्युक्ते इ य हा ई य आगच्छति इक वर्णा ये सन्ति इ ओ ह इ स्थाने य आगच्छति ऊ स्थाने व आगच्छति स्थाने तत्र इको यणी यण् य लव ऋस्थाने ऋ आगच्छति एवमस्ति अत्र किं दुष्यते? नास्ति तत्र इका स्थाने य आगच्छति पश्यन्तु तत्र माहेश्वरसूत्राणि सन्ति माहेश्वरसूत्राणि इत्युक्ते तद् मूलरूपम् तत्र तो सर्े स्वरा सी अंड्रुक् ई औनमस्ति हय वरटल अन सर्वे सर्वा व्यंजना यमंगणन जब ई घड़ जब घड़ खप चटथ एंड सॉन् तवरांजना मध्ये ये वर्णा सी तेषां सम्प्रसारणवर्णः इति एका संज्ञा सम्प्रसारणमित्युक्ते परिवर्तनशीलः इत्युक्ते तत्र इ अस्ति तस्य परिवर्तनं य इति भवति उ उकारस्य व इति भवति रु अस्ति चेत् र इति भवति इति एकः व्याकरणबिन्दुः हा अस्तु अत्र यणसन्धेः भूत्वा तत्र नास्ति अत्र शब्दस्य नास्त्यत्र संशयः इति अस्ति अधुना तत्र पश्यन्तु अन्तकाले च माम् एव स्मरन्तु इदानीं भवन्तः चिन्तयतु तत्र जीवने भगवतः स्मरणं न करणीयम् अन्तकाले एव तस्य स्मरणं करणीयम् एन सर्वं सिध्यते वा न भगवत् प्राचयतु जीवितं जीवनसमये अपि भगवत् स्मरणम् आवश्यकम् अन्तकाले अपि आवश्यकम् अतः च इति उक्तवान् भगवान् तत्र सम्यक् इत्युक्ते सर्वासु अवस्थासु बाल्यकाले यौवनकाले यौवनख वृद्धापयुद्धकानि ना ना ना। यह पुनः एकवारं तत्र स्मरति सर्वेकवारं म्यूट् कुर्वन्ति तत्र भगवतः विषयकः भगिनी ऐ थिङ्क् मिस्टर् अम्बिकापतिमहोदय हेज़् नाट् म्यूटेड् म्यूटेड् एवं वा सर्वे कृपया म्यूट् कुर्वन्तु अस्तु इदानीं सम्यक् धन्यवादः तत्र सर्वासु अवस्थासु मनसि भगवतः भावः अन्तःकरणे भगवतविषयकः अन्तःकरणे भावः इति अस्ति चेत् तदा एव अन्तकाले मरणसमये तस्य स्मरणं भवेत् खलु तदा एव स्मरणं भवेत् तदा एव परमात्मन प्राप्ति भवति इत्युक्ते जीवने अस्माकं स्थितिः सदा भगवती सदा सर्वदा भगवति भवेत् इति तदा एव प्रयाणसमये एट् द टैम् आफ् डेत् इति प्रयाणसमय दोस् हु मेडिटेट् आन् मी स्मरन्मुक्ता बै the body, बाडि मद्भावम् एव याति इत्युक्ते दे अटेण्ड् मी इति अस्ति भावः तत्र इत्युक्ते जीवने किमपि न करणीयं भगवतः स्मरणमेव करणीयम् एवं भवेत् वा किं चिन्तयति भवन्तः सर्वे न स्वस्य कार्यं कृत्वा भगवतस्य स्मरणं करणीयं सम्यक् इतोपि एकं तत्र अस्ति अस्माकम् अस्माभिः यानि कार्याणि कृतानि तानि सर्वाणि अर्पणं करणीयम् एवमस्ति यतोहि वयम् अर्पणं कुर्मः तदा देर् हेस् टु बि वन् कण्डिशन् किम् सर्वाणि कार्याणि भवेत् परन्तु सर्वाणि कार्याणि पुण्यकार्याणि एव भवेत् खलु एव वयम् अर्पणं कर्तुं शक्नुमः hmm. इति विचारः अस्तु अस्माभिः तत् कथा अपि पठनीया तत् अनन्तरं पश्यामः किञ्चित् पुस्तकं प्रति गच्छामः वयम् अस्तु तत्र नास्ति अस्ति इति अस्माकम् एकः विषयः अस्ति गीतासोपानं पुस्तके तत् एकवारं पुस्तके यद्दत्तमस्ति पठनं कृत्वा अग्रिमे ुद्धि अयुक्तस्य तस्मात् प्राक् न करोति इति न करोति न करोति इति पाठः तत्र न करोति इति पाठे तत्र आम न किम् इति अस्ति प्रथमतः तु तत् समापयामः राधा भगि न करोती तत। न कौच पठत आष भीष आम भीष अभिमनु कि अभिमु कि अभी एषा सरस्वती किम् न एषा कालिका hmm. तत् स्यान्दनं किं न तत् विमानम् hmm. कोष्टकस्थं चिन्हं दृष्ट्वा उचितानि वाक्यानि लिखत hmm. कृष्णः योगेश्वरः किम् आम् कृष्णः योगेश्वरः न सामान्यः अर्जुनः गदादारः किम् न अर्जुनः गदाधारः न सः धनुर्धरः रुद्राष्टः दृष्टिमानः किम् न धृदुराष्ट्रः दृष्टिमानः नास्ति अन्तः अस्ति दुर्योधनः सज्जनः किम् न दुर्योधनः सज्जनः न दुष्टः अस्ति विदुरः राजा किम् न विदुरः राजा नास्ति मन्त्री अस्ति अब्दुल् कलां वैज्ञा वैज्ञानिकः किम् आम् अब्दुल् कलां वैज्ञानिकः सैनिकः नास्ति तथैव आं न किम् सः अभिमन्युः किम् आम् सः एवमस्ति सरलम् एव अस्तु धन्यवादः धन्यवादः विना भगिनी अग्रिमं गच्छति वा नास्ति बुद्धिः अयुक्तस्य तथा नास्ति बुद्धिः अयुक्तस्य चापः अस्ति सरः नास्ति किं चित्रे किं दृश्यते तत्र चापः अस्ति शरः नास्ति शरः इत्युक्ते किं भगिनि तत्र शरः न दृश्यते चित्रे खलु चापः एव दृश्यते चापः अस्ति शरः नास्ति अग्रिमे सिंहासनम् अस्ति महाराजः नास्ति अत्र चित्रदृष्टं चित्रदृश्यम् अस्ति प्रथमद्वयम् सारि चित्रद्वयम् अस् प्रथमे चित्रे किं किम् अस्ति इति तस्य अधः लि लिखत द्वितीयचित्रे तेषु किं नास्ति इति तस्य अधः लिखत अर्जुनः अस्ति ऐ न् कम्प्लीट् दण्ड् देन् गो टु द सेकेण्ड् पिक्चर् भगिनी सम्यक् वदतु हा प्रथमं वदतु अनन्तरं अर्जुनः अर्जुनः अस्ति चक्रः चक्राः अस्ति चक्रम् चक्र, इति अस्ति तत्र तत्र नपुंसकलिङ्गे पुनः प परन्तु बहुवचनं वा भगिनी हा तत्र अस्तु परन्तु तत्र एक एकमेव चक्राणि सन्ति चक्राणि चक्राणि सन्ति अस् अपि सन्ति फोर् अत्र द्वितीयचि चित्रे अर्जुनः नास्ति अर्जुनः चक्रं चक्रं नास्ति नास्ति ध्वजः अपि ध्वजः अपि नास्ति तत्र किं दृश्यते अत्र वानरः दृश्यते वा ध्वजः तु अस्ति एव अत्र ध्वजोपरि तत्र वानरः अस्ति वानरः अस्ति अत्र वानरः न दृश्यते वानरचित्रचित्रे नास्ति न ना दृश्यते अस्ति नास्ति इति पठनबिन्दु अस्तु धन्यवादः भगिनी धन्यवादः धन्यवाद अग्रिमे जयन्ती भगिनी पठति वा आ, आ, में में प्रहेलिका आम् आम् पठामि भगिनि प्रहेलिका अस्ति नास्ति शिरो नास्ति बहूरस्ति निरङ्गुलि निरङ्गुलिः नास्ति पादद्वयं काडं काडम् अङ्गमा अङ्गमालिङ्गति स्वयं परन्तु शरीरं दृढम् आलिङ्गति आलिङ्गति तत्र किमस्ति अङ्गम् uh... आलिङ्गति स्वयम् यत्र अस्थि uh... uh... uh... नास्ति स्थिरः uh -huh... नास्ति बाहु अपि नास्ति हा क्षम्यता बाहु अस्ति तत्र विसर्गस्य mm. रेफ बाहुः mm. अस्ति निरङ्गुलिः निरङ्गुलिः इत्युक्ते तत्र अङ्गुलिः न पादद्वयं नास्ति mm. गाढम् अङ्गम् mm. अङ्गम् आलिङ्गति स्वयं mm. गाढम् इत्युक्ते mm. दृढम् अतिनिकटम् mm. अङ्गम् अङ्गस्य mm. अतिनिकटम् अस्ति किं तत् इति कथयतु प्रहेरिकायां कथं दृश्यते तत्र वर्णनं वर्णनमस्ति तत् वर्णनं पठित्वा अस्माभिः चिन्तनं करणीयं किमेतत् यस्य अस्थि नास्ति यस्य शिरः नास्ति यस्य बाहुद्वयम् अस्ति यस्य अङ्गुलिः नास्ति यस्य पादौ न अत्र पादौ न स्तः स्तः इत्युक्ते किं भगिनी द्वितीयाविभक्ति भगिनी द्वितीयाविभक्ति प्रथमपुरुषपुरुष द्विवचन स्तः अस्ति स्तः सन्ति अस्ति प्रथमपुरुष एकवचन स्तः सन्ति बहुवचनं परन्तु शरीरं दूरम् आलिङ्गति किम् एतत् कथयतु वदतु इदानीम् उत्तरं किमस्ति शार्ट् तत्र युतकम् इति शर्ट् कृते युतकम् इति एकः शब्दः युतकम् अस्ति तत्र अस्ति नास्ति सन्ति स्तः एवं तस्य मनसि इत्युक्ते क्विज़्वादः अग्रिमे वर्गे वयं तत् कुर्मः प्रहेलिकां स्वीकृत्य तत् कथं भवति तत् पश्यामः वयं तत् कुर्मः प्रहेलिका संस्कृतभाषायां तत्र उत्तमप्रकारेण प्र प्रहेलिकायाः योजना दृश्यते वयं तत् अपि कुर्मः तत्र गतवर्गे एतत् न अभवत् कौ महर्षिकः तत्तु अभवत् परन्तु एतत् न अभवत् तत् समापयामः गतवर्गे वयं कियत् कृतवन्तः गतवर्गे किं किम् भवान् भवान् भवती अहम् युव अवम् अहं यूयम् इति अहम् अहम् अहं तु सम्यक् अहम् आवां वयम् अहम् आवां वयं त्वं युवा यूयं भवान् भवन्तौ भवन्तः भवति भवत्यो भवति पुनरावर्तनमस्ति तत् वयं कुर्मः अनन्तरं तत्र कन्ना तत् भगिन्यः नाम किं लक्ष्मीभगिनी भवती करोति वा लक्ष्मी माङ्ग् बेनि अद्य दिने सा वक्तुं स्थिति मे नास्ति इति अस्तु अस्तु एवं वा द्वितीया तत्र अस्ति खलु एका भगिनी अहं पृच्छामि बेनि वडीवबेनी कर्पकं बेनि कापि वदति वा अभ्यासं करोति वा अभ्यासं पी रे क्लियर्वद् कर्पः का हरि बेनि अस्तु बेनि वा वयं कण्टिन्यू अस्तु भवती एव करोतु अनन्तरम् अस्तु अम्बिका पति भवती करोतु प्रथमम् अस्तु उचित उचितशब्दयोः संयोजनेन वाक्यं रचयत यथा त्वं संसुभद्रा hmm. आवाम् आवाम् आवां सुभ भ्रातरौ भ्रातरौ आवां भ्रातरौ अनन्तरम् यं किं भवति वक्तुं शक्नोति वा जयन्ति okay. no, no, oh. uh, uh, uh, uh, भगिनी आम् आम् आं बेनि क्षम्यतां लेफ़्ट् कृतवती आवां रात्रौ आवां रात्रौ वयं वयं सैनिकाः पाठ शिष्य वयं गोपिकाः वयं गोपिकाः अस्तु युवां वा युवां युवां शिष्यौ सारि युवां युवां शिक्षकाः तदपि योग्यं युवां शिष्यौष्यौ युवां शिष्यौ अहं शिक्षि अहं अहं शिक्षिका सारि शिक्षिका बहुत, आ, बहुत न भव भवितुम् अर्हति अहं पार्थः अहं पा अहं पार्थि सम्यक् अनन्तरं भवान् भवान् भवान् सैनिकः भवान् सैनिकः यूयं यूयं शिक्षकाः भवन्तः hmm. आचार्याः भवन्तः आचार्या <tosan> hmm. अस्तु सर्वेषां स्पष्टमस्ति वा सर्वेषाम् अस्ति तत्र अहम् मां वयं तत् अत्रापि दृश्यते कोष्ठके विद्यमानां रूपाणां सायेन रिक्तस्थानम् पूरयत तदपि वा? वयं कुर्मः अम्बिकापतिमहोदय भवान् पठति वा अहम् आवां वयं भवान भवन्तौ भवन्तः जिज्ञासु कविः गुरुः लेखिका युवती त्वं युवां यूयं भवती भवन्तौ भवन्त भवत्यः भवत्यौ भवत्यः गायिका आचार्यः सखी मित्रम् जिज्ञासुः आवां जिज्ञासु जिज्ञासाः अत्र भानु इव प्रचलति खलु भानुः उकारान्त अन्तिमवर्णं पश्यामः अन्तिमे किमस्ति कः वर्णः अस्ति उकार अस्ति अस्तु उकार अस्ति उकार अस्ति पुल्लिङ्ग अस्ति कथं प्रचलति एतादृशं चिन्तनं करोतु कथं प्रचलति भानु इति एकं शब्दमस्ति तत्र भानुः वानुवज्ञासवः इति भानुः भानु भानवः गुरुः गुरु गुरवः गुरु जिज्ञासुः जिज्ञासु जिज्ञासव एवमस्ति hmm. अग्रिमे करोतु hmm, गायिका युवां गायिका यूयं गायिके वयं गायिकायाः उदा एकवारं वदति वा यिका त्वं गायिका त्वां गायिके युवां गायिके त्वं युवां यूयं युवां गायिके यूयम् गायिकाः अत्र पश्यतु एवमपि वक्तुं शक्नुमः खलु अहं गायिका आवां गायिके वयं गायिकाः नो चेत् गायिका युवां गायिके यूयं गायिकाः भवती गायिका भवत्यौ गायिके भवत्यः गायिकाः एवमस्ति स्पष्टमस्ति महोदय oh, स्पष्टमस्ति अग्रिमे करोति वा आचार्यः यूयम् आचार्युवाम् आचार्यः यूयम् आचार्यः न तत्र एकवचनान्तरूपमस्ति खलु अहम् आचार्यः त्वम् आचार्यः चार्यः युवाम् आचार्यौ सत्यं आचार्याः आचार्या, उत्तमम् अग्रिमे युवती त्वं युवती युवां युवत्यौ नदीनद्यौ नद्यः नद्यौ नद्यः युवती युवत्यौ युवत्यः इति अस्तु अत्र सर्वेषां स्पष्टमस्ति वा सन्देहः अस्ति वा अत्र अस्तु अग्रिमे तस्मन् मदनमोहनमालवीयः महोदयस्य एकः तत्र गीताविषये सः किं वदन् वदन्ति इति वदन्त महात्मानः गीताविषये किं वदन्ति तत्र मदनमोहनमालवीयमहोदय किं वदन्ति वदन्त पठामः राधाभगिनी पठति वा राम् भगिनि यथा अहं जानामि विश्व साहित्यसङ्ग्रहे कोपि mm. तादृशः अन्यग्रन्थः नास्ति mm. यः भगवद्गीता एव सर्वश्रेष्ठस्यात् mm. अयं धर्मनिधिः ग्रन्थः न केवलं हिन्दूनां कृते अपि तु समस्तमानवजातये अस्ति mm. किं वदति महोदय किं वदति अत्र मदन्मोहन् मालवीयः भगवद्गीताग्रन्थः तादृशं विश्वस्य कोऽपि ग्रन्थः नास्ति धर्मग्रन्थः अस्ति केवलं हिन्दूनां कृते नास्ति सर्व जनाः कृते अस्ति इति जनानां कृते समस्त न केवलं नाम कृते तत्र या धर्मनिष्ठा इदानीं दृश्यते तत्र हिन्दु वा मुस्लिं वा बौद्ध तत्र वर्गीकरणं तस्मिन् काले न आसीदेव तादृशं वर्गीकरणं तस्मिन् काले न आसीत् इत्युक्ते धर्म इत्युक्ते कं धारयति इति धर्मः समाज मनसः धारणां यः करोति सः धर्मः नीतिवचनानि तत्र सत्यं किम् असत्यं किं कस्य पालनं करणीयं कस्य त्यजनं करणीयम् एवं सर्वं ये ये सिद्धान्ताः सन्ति तस्य नामकरणं धर्म इति तत्र साम्प्रायदयि साम्प्रदायिकत्वं वा तत्र धर्मान्धहता न दृश्यते एव अतः तत्र दत्तमस्ति ये इत्युक्ते वसुधैव कुटुम्बकम् इति अस्ति खलु समस्तमानवजातये इति अस्ति न केवलं गुरूणां कृते अस्तु भगिनी पण्डित् मदनमोहनमालवीयः विषये किं जानाति वा कः अन्यकोपि जानाति वा तत्र बनारस् विश्वहिन्दुविद्यालये जानाति वा सर्वे बि एच् यु इति तस्य संस्थापकः सः ज्ञानी ज्ञानी तत्र विद्वानः तज्ञः इति आसीत् सः सः संस्थापकः मि एच् यु युनिवर्सिटि एतस्य अस्तु अच्छा, अस् उत्तमम् इदानीं वयम् एतत् सर्वम् अद्य दिनस्य पठनम् एतत् सर्वम् अस्ति नास्ति नास्ति अस्ति तत्र परिदेवना तत् अत्र तत्र, तत्र, तत्र अग्रिमे वर्गे वयं कुर्मः दृश्यते दृश्यते कथा अतः वयं पठितवन्त किं पठितवन्त अष्टमे अध्याये एकः श्लोकः अन्तकाले च मामेव स्वरन्मुक्त्वा कले कलेरव कलेवरं यप्रयादि या समद्भाव यातिभावं याति नास्त्यत्र संशयम् इति इत्युक्ते मनसि आगच्छति अस्तु मद्भाव प्राप्नोति परमेश्वरस्य स्वरूपं प्राप्नोति परं भावं प्राप्नोति इत्युक्ते तत्र किमपि न करणीयं तत्र मोक्षप्राप्तिः भवेत् केवलं भगवतः नामस्मरणं प्रातः आरभतः रात्रौ पर्यन्तं तत् तथैव करणीयम् एवं मोक्षस्य मार्गः मार वा किमपि न करणीयम् एवं मोक्षस्य मार्गः भगवद्भक्तिः तथैव समीचीनं वा इति मनसि प्रश्नः तस्य उत्तरमत्र अस्ति मोक्षस्य मार्गः किमस्ति तत् पठामः चिन्तनमपि कुर्मः हा अस्तु अधुना वीडाभगिनी भवती आरम्भं करोति वा हा भगिनी पठ अहं पाठस्य नाम न दृश्य अत्र अस्ति मोक्षस्य पठतु मोक्ष इत्युक्ते किम् स्वशब्दे वदतु तत्र सम्भाषणस्य कृते एव वर्तते मोक्षे इत्युक्ते मृतानन्तरं कालचक्रस्य बहिर् बहिर्गतु गन्तुं भवति वा उत्तमम् तत्र पुनरपि जननं पुनरपि मरणं पुनरपि जननं पुनर्जननी जठरे शयनं तदस्ति तस्मात् बहिः गमनं तत् य आवर्तन होती तस्मा बी तोक्षा त्र मोक्ष मुछ मुच्छ मुच्छ धातु अस्त मुच्छ मोक्षण की अस्सी भगवत्व भगवत भगवत स्वूप याष भाव अस्त मोक्ष गीता सर्वत्र दृश्यते मोक्षप्राप्ति कथं भवति तत, अस्ति तत् अस्तु अधुना पठतु अस्तु भगिनि कश्चन ग्रामः तत्र देवय्यः नाम कश्चन परिश्रमशीलः सर्वदा कार्यशीलः च निवसति स्म वार्धक कारणतः वार्धतः कार्यकरणे अशक्तः जातः अशक, अशक्तः जातः पुत्रेभ्यः गृहस्य उत्त उत्तरदायित्वं समर्प्य यदा कदा वा वाटिक वाटिकादिकं गत्वा पुत्राणां मार्गदर्शनं करोति स्म सः hmm. अन्यस्मिन् समये पौत्रादिभिः सह कालहरणं कुरु कुर्वन् आनन्देन जीवनं यापयति स्म वदतु hmm. कि <laughs> किमस्ति एकं ग्रामे एकं देवय्यः तत् नाम एकं पुरुषः स्म सः परिश्रम करोति सर्वदा कार्यशीलः च भवति भवति स्म वार्धक्यकारणतः वार्धक्य इत्युक्ते किं भगिनि अहं न जानामि वृद्धावस्था ओके <laughs> वृथाप्ये सः कार्यकरणे अश अशक्तः जातः सः पुत्रेभ्यः पुत्रेभ्यः गृहस्य उत्तरादित्वं समर्पितवान् उत्तरदायित्वं समर्प्य उत्तरदायित्वम् इत्युक्ते अधुना पुत्रः एव उत्तरदायित्वम् उत्तर इत्युक्ते रिस्पान्सिबिलिटि रेस्पान्सिबिलिटि हा भगिनि हा समर्प्य हा यदा वाटिकादिकं वाटिकादिकम् इत्युक्ते पुष्पवाटिका गार्डन् इति हा सः पुष्पवा पुष्पवाटिके Uh, पुत्राणां मार्गदर्शनं करोति hmm. अन्यस्मिन् समये पौत्रादिभिः सह कालहरणं हा हा अन्यसमये सः पौत्रादिभिः इत्युक्ते ग्राण्ड् चिल्ड्रन् वा भगिनि पौत्रादि ग्राण्ड् चिल्ड्रन् सः कालहरणं करोति आनन्देन जीवनं यापयति स्म आनन्देन सः तस्य जीवनं गच्छति गच्छति uh, टिपिकल् रिटैर्ड् लैफ़् हि इस् एञ्जायिङ्ग् देट् इति अस्ति देवय्य कार्यशीलः आसीत् परिश्रमशीलः आसीत् परन्तु वार्धक्यकारणात् इदानीम् अशक्तः तादृशी शक्तिः नास्ति उत्तरदाय कीक स्वीक अतः देव्य कि भ्रमण करनीय यदा आवश्यकता दृश्य है तुत्रण मगदर्शनम पौत्रा पौत्रा सी त्रीडनम कालहरण तत् जीवन स्म इति दृश्यते स्म स्म <laughs> स्म इत्युक्ते किमस्ति भगिनी भूतकालः भगिनी अस्तु धन्यवादः धन्य धन्यवादः भगिनी अधुना अधुना वीणा वीणा भगिनी अग्रिमे पठति वा वीणा भगिनी अहमेव अहमेव अहमेव वा भगिनी न न इदानीं का पठितवती राधाभगिनी वा वीणा भगिनी अहं वीणा वीणा भगिनी पठितवती वा अस्तु अस्तु दृश्यते तेन अस्तु वीणाभगिनी पठित अस्तु राधा राधा भगिनी अधुना पठतु आं भगिनि अथ एकदा एकदा देवय्यः इत्थम् इत्थम् इत्थम् अचिन्तयत् यत् मया जीवने सर्वविधानि सुखदुःखानि दृष्टानि अधुना मया मोक्षः प्राप्तव्यम् इति तस्मिन् समये ग्रामं प्रति कश्चन साग् आगतः इति वार्ताम् श्रुतवान् देवय्यः सह एव मोक्षस्य मार्गम् दर्शयति इति विचिन्त्य झटिति तस्य समीपम् आगच्छत् अगच्छत् अगच्छत् अगच्छत् एकदा देवस्य मनः चिन्तनम् आगच्छति मम जीवने सर्वसुखदुःख अहं दृष्ट्वा अधुना मोक्षस्य प्राप्तव्यं कथं करणीयम् इति चिन्तनम् आगच्छति hmm. तस्मिन् समये ग्रामं कश्चन साधु आगतः इति वार्ता अपि सः श्रुतवान् hmm. तत्कारणं मोक्षस्य मार्गं ते दर्शयति इति चिन्ति चिन्त चिन्तन् चिन्तित्य ते झटिति सारी <laughs> <laughs> <Sorry, laughs> <पगी? laughs> विचिन्त्य इत्युक्ते लेप् प्रत्ययः उपसर्गः अस्ति अतः प्रत्ययः चित्वा चित्वा चित्वा ओके ते झटिति तस्य समीपे गतवान् तत्र मनसि एकः विचारः आगतः मोग् अस्माकं यत् मोक्षप्राप्तिः इति ध्येयः तत्र भगवद्गीता गीतायामपि तत्र वर्णितमस्ति तत् कथं मया प्राप्तव्यं साधुं पृच्छामि इति चिन्तितवान् तत्र साधुं साधुं प्रति इति अस्ति अस्तु अधुना किं भवति जयन्ती भगिनी पठति वा भगिनी अत्र अत्र झटिति इत्युक्ते क्विटि वा क्विटलि शीघ्रतया धन्यवादः मनसि विचारः आगतः नौ दट् थाट् हेस् टु बि कन्वर्ट् इन् टु एन् झटिति तत्र गतवान् तत्र तस्य समीपं तत्र मोक्षप्राप्तिविषये सः अतीव कथमहं प्राप् कथं मया तत् प्राप्स्यते इति मोक्षप्राप्ति इति अधुना किं भवती जयन्तीभगिनी पठति महास्वामिन् महास्वामि अहं जीवनस्य सर्वविदं सुखं दुःखं च अनुभूतवान् अस्मि इतः परं लौकिकजीवनस्य आवश्यकता नास्ति अतः भवान् मोक्षस्य मार्गं दर्शयतु इति प्रार्थितवान् देवभ्यः देवभ्यः देवभ्यः साधुसमीपं गत्वा पृष्टवान् इति पृष्टवान् अहम् अस्मा अहं जीवनस्य सर्वविधं सुखं दुःखानि अहं दृष्टवान् अस्मि इतः परं लौकिकविषये मम इच्छा नास्ति अतः मोक्ष मोक्षं प्राप्तुं मार्गदर्शनं करोतु इति साधु साधु साधूनां समीपं गत्वा पृष्टवान् अस्ति पश्यन्तु बहवः तत्र वृद्धजनाः ते वदन्ति मया किमपि इदानीं मम कर्तव्यं तु अहं कृतवान् इदानीं किमपि शिक्षण नास्ति कस्यापि आवश्यकता एव नास्ति मम जीवने लौकिकजीवने लौकिकजीवनस्य इत्युक्ते लौकिक पारलौकिकः लौकिक इति फिजिकल् थिङ्ग् सम्यक् इहलोक इहलोके मम तस्य किमपि कार्यं तु शेषः नास्ति एव आवश्यकता एव नास्ति मोक्षमार्गे अहं गच्छामि अधुना अत्र भवति बहवः जनाः वदन्ति लौकिकजीवनस्य आवश्यकता नास्ति किमपि न इच्छामि परन्तु मनसि सः भावः अस्ति वा वैराग्यं नास्ति कदापि नास्ति वैराग्यम् अतीव कठिनमस्ति तत् सुलभतया वैराग्यजीवनस्य अङ्गीकरणं न भवति तद् विशेषत्वेन ये जनाः तत्र रामकृष्णपरमहंसः वा स्वामिविवेकानन्द वा आदिशङ्कराचार्य विशेषत्वेन ये अलौकिकजनाः तेषां कृते एवं तत् शक्यते अन्येषां कृते तत् न भवतीति अग्रे पठति वा जयन्तिभगिनी भवतु नाम भवतु नाम इदानीम् एव भवान् मया सह चलतु इति उक्त्वा ततः प्रस्थितवान् साधुः साधु उक्तवान् अस्तु चलतु मम सह मम सह चलतु इति देव्यः तम् अनुसृतवान् देवव्यः अपि साधु अनुसृत्य गतवान् किञ्चित् दूरं गमन एकन्तरं तत्र अनुसृतवान् तत्र भगिनी प्रत्यय उपसर्गस्य विषये किञ्चित् वदति वा अनुसृतवान् एव प्रत्यय अनु इति उपसर्गं अनु उपसर्गम् श्रुतवान् श्रुतवान् इति साधु साधु साधूनां वार्ता श्रुत्वा ऐ मीन् अनुसृ अनुसृत्य गतवान् तस्य चिरं श्रुत्वा गतवान् ऐ पान् न तत्र अनुसृतवान् इत्युक्ते फालोड् तत्र तव तु कथ्ये ृतवान् इत्युक्ते श्रूसरोति श्रुवति तत्र वान्वति इति तव तु प्रत्ययरूपधु प्रस्थितवान् देवय्यः तम् अनुसृतवान् फालो डिम् इति अस्ति आम् किञ्चित् दूरं गमनान्तरं देवव्यः अवदत् प्रभो एतत् एव किञ्चित् दूरम् साधुम् अनुसृत्य गतवान् किञ्चित् दूरं गत्वा अनन्तरं देवव्यः साधुं पृष्टवान् प्रभो मम गृहं मम गृहं मम गृहम् इति तत्र ये क्रीडन्तः सन्ति ते मम पौत्राः अहं तैः सह क्रीडामि प्रतिदिनम् इति देवव्यः उक्तवान् प्रभो मम गृहं तत्र ये क्रीडितवन्तः तत्र ये बालकाः क्रीडितवन्तः क्रीडित क्रीडन्ति अस्ति ऐ मीन् सन्ति ते मम पौत्राः अहं प्रतिदिनं प्रतिदिनं पौत्रा पौत्राः सह अहमपि क्रीडितवान् क्रीडनं कृतवान् इति उक्तवान् देवत्यः पुनः पठामि वा पठामि वा अनन्तरं किञ्चित् पठतु अनन्तरम् अग्रिमे अम्बिकापति महोदय पुनः पुनः किञ्चित् अग्रे यदा गतं तदा पुनः देवव्यः एषा मम वाटिका मया अत्र परिश्रमेण कार्यं कृतम् इति अवदत् किञ्चित् दूरं गत्वा पुनरपि देवव्यः वदति उक्तवान् एषः मम वाटिका मया एष वाटिकायाम् अहं मम पौत्रेण सह परिश्रमणं ऐ मीन् अत्र परिश्रमेण कार्यं कृतवान् इति अवदत् ऐ मीन् देव देवव्यः उक्तवान् किन्तु किन्तु साधुः कामपि प्रतिक्रियां अदर्शयन् अग्रे अगच्छत् किन्तु पर्याप्तम् अधुना किं भवति साधुः हा तत्तु कामपि काम प्रतिक्रियाम् अदर्शयम् अग्रे आगच्छत् इति इत्युक्ते किं भगिनि सम्यक् नाम गमनं न प्रथमतः किम सः चिन्तितवान् लौकिक लौकिके किमपि शेष शेषत्वेन नास्ति अहं मोक्षप्राप्तेः कृते प्रयत्नं करोमि किञ्चित् दूरं गमनं गमलानन्तरम् एतत् मम गृहम् ये क्रीडा पौत्राः अनन्तरं मम वाटिका तत् मया एव तत्र परिश्रमेण तत्र कार्यं कृतम् इति पुनरेदा साधु कामपि प्रतिक्रियाम् अदर्शयन् अग्रे अगच्छ एतत् सर्वं साधु सत्पुरुषः शृणोति प्रतिक्रियां न ददाति न दत्तवान् साधु इति एतावत् पर्यन्तं अग्रिमे भवान् पठति वा देवय्यः मनसि एव देव, देव्यः अत्र दृश्यते वा किञ्चित् एन्लार्ज् कृते देवय्यः इदानीं भवतः गृहवाटिकाय वाटिकाद्यः तस्मात् प्राप्त देवय्यः मनसि एव पत्नीपुत्रादीं स्मरन् एव तत् देवय्यः मनसि एव पत्नी पुत्रा पुत्रादीं स्मरणम् एव मौनः पुण्येन मौनपुण्येन पौन गृहस्य दिशि पश्यन् साधुम् अनुसरति स्म इत्युक्ते किं देवस्य मनसि एव पत्नी पुत्रादीन् स्मरणम् एव चिल्ड्रन् वदति मम मोक्षप्राप्तेः कृते मया प्रयत्नं करणीयं परन्तु अत्र किं भवति मनसि साधु स्मरति पुनः पुनः पौन् पौनः पुण्येन गृहस्य दिशि पश्यन् साधुम् अनुसरति तत्र सः पश्यति गृहं पश्यति पुनः पुनः पौनपुण्येन पौनः पुण्येन इत्युक्ते पुनः पुनः पुनः पुनः धन्यवादः दिशि सः पश्यति साधु अपि अनुसरति मनसि मोक्षप्राप्तेः इच्छा आसीत् परन्तु तत्र गृहम् अपि पश्यति तदा पठतु तदा, तदा साधुः अपृच्छत् देवस्य देवय्य इदानीं भवतः गृहवाटिका वाटिकादयः दृश्यन्ते किम् तत्र तत्र अग्रे अग्रे गच्छन्ति अग्रे गत्वा तत्र अग्रे गच्छतः द्वयोः कृते तत् अग्रे गच्छतः अधुना साधुः पृच्छति पृच्छति स्म इदानीं भवतः गृहवाटिकादयः दृश्यन्ते किम् <laughs> तत्र दूरे गच्छन्ति दूरे गत्वा सः साधु तं पुनः एकवारं पृच्छति गृहं दृश्यते वाटिका दृश्यते आदय इत्युक्ते इति दृश्यन्ते किं साधु पृच्छति तदा hmm. किं वदति ah. ah. ah. आम, तत्र uh, अनति, दूरे, दृश्यते खलु तदेव hmm. मम गृहं तस्य पुरतः वाटिका अपि दृश्यते इति hmm. अवदत् देवस्य so देव ह्यः वदति अहं पश्यामि वाटिका पश्यामि गृहं पश्यामि गृहं पश्यामि वाटिकां पश्यामि इत्युक्ते गृहस्य विषये चिन्तनमस्ति वाटिकायाः विषये चिन्तनमस्ति तत्तु अस्ति इति विषयः अग्रिमे इतोपि इतोपि किञ्चित् दूरं गत्वा साधुः पुनः तमेव प्रश्नम् अपृच्छत् तदा देव देवय्यः अवदत् दूरे बिन्दुरूपेण यत् दृश्यते तदेव मम बिन्दुरूपेण किञ्चित् दूरं गत्वा साधु पुनः दृश्यते किम् इदानीं भवतः गृहं दृश्यते किं वाटिकादय दृश्यन्ते किम् इति प्रश्ने सति पुनः स देवय्य किं वदति दूरे बिन्दुरूपेण बिन्दुरूपेण स्माल् डाट् फोर्म् यद् दृश्यते तदेव मम गृहम् इत्युक्ते अक्षोः पुरतः न आसीत् तर्हि सः अनुमानं कर्तुं शक् शक्नोति किं तत्र बिन्दुः दृश्यते खलु एषः मम गृह तत् मम गृहम् इति तत् दृश्यते खलु गृहस्य पुरतः अनुमानं कर्तुं शक्नुमः मम गृहं गृहस्य पुरतः वाटिका तदेव मम अस्ति अधुना अग्रिमे किं भवति किञ्चित् किञ्चित् कालानन्तरं पुरः अपृच्छत् तदा देवय्यः निराशातया स्वामिन् अधुना क्षम्यताम् अधुना क्षम्यताम् साधु देवय्यः अहं न पश्यामि अत्र दृश्यते तदा देवय्यः निराशदया स्वामिन् तदा देवय्य निराशदया स्वामिन् अधुना किमपि न दृश्यते इति अवदत् इदानीं तत्र बिन्दु दृश्यते अनन्तरम् इतोऽपि दूरं गत्वा कालान्तरेण साधु पृच्छति इदानीं भवतः गृहवाट वाटिकादयः दृश्यन्ते किं तदा सः निराशभावनया वदति अधुना किमपि न दृश्यते अक्षोः पुरतः किमपि न दृश्यते बिन्दुरूपेण अपि किमपि न दृश्यते बिन्दुरूपेण दृश्यते चेदपि अनुमानेन वक्तुम् अहं शक्नोमि परन्तु इदानीं तु किमपि न दृश्यते किमपि न दृश्यते निराशभावनया सः उक्तवान् ओके okay? आँग। आँग। में राधा धन्यवादु तदा साधुः यदा नेत्रेलि निमिलिते अपि गृहादिकं न दृश्यते तदा एव मोक्षस्य प्राप्तिः किन्तु भवतः संसारिकजीवनस्य व्यामोहः न अपगतः तथापि भवता मोक्षम् प्राप्तुं कठिनतपः आचरणीयम् इति नास्ति संसारः अपि परित्यक्त्वा परित्यक्तव्यं तव्यः परित्यक्तव्यः Hmm. सर्वदा भवतः सर्वदा भगवतः नामस्मरणं कुर्वन् धर्ममार्गं आश्रयति चेत् मोक्षः स्वयमेव प्राप्येत् इति उक्तवान् hmm. ततः देवय्यः ज्ञानोदयं प्राप्य साधुं नमस्कृत्य गृहं प्रति प्रत्यागच्छत् साधु देवय्यं वदति यदा नेत्रे मिलितत्वापि गृहादिकं न दृश्यते तदा एव Uh, तस्य uh, uh, भवान् सदैव uh, तस्य गृह uh, कथमस्ति तस्य चिन्तनम् अस्ति uh, mm. uh, तत्र करणीयम् अस्ति तर्हि तर्हि uh, मोक्ष न प्राप्नोति संसारजीवनस्य mm. uh, मोहः अस्ति uh, ते uh, तत् कारणं मोक्षं न प्राप्नोति Uh, मोक्षस्य प्राप्तुं uh, कृते कठिनतपः आचरणं करणीयमस्ति ते ते भवान् कृते नास्ति ते भवान् न करोति तथैव नास्ति आचरणीयमिति नास्ति नास्ति कठिनतपः आचरणीयं सर्वपरित्यागं करणीयम् अनन्तरं तत्र सदा सर्वदा भगवद्भक्तिः इत्युक्ते किमपि अन्यकार्यं न करणीयम् इति नास्ति तत्र तपाचरणम् एवं भवेत् तपाचरणेन एव मोक्षप्राप्तिः इति नास्ति संस्कारमपि ah, okay. परित्यक्तव्यः इति अपि नास्ति mm -hmm. अधुना किमस्ति तदग्रिमे वाक्ये तद्वद ah. सर्वदा सर्वदा भगवतः नामस्करणं करणीयं धर्ममार्गेः चल चलति तर्हि मोक्षं स्वयमेव प्राप्नुवन्ति इति उक्तवान् धर्ममार्गस्य मार्गेण संसारस्य कृते धनस्य आवश्यकता गृहस्य आवश्यकता तत्सर्वं तस्य सर्वस्य आवश्यकता तु भवति एव परन्तु तस्य प्राप्ति केन प्रकारेण धर्ममार्गेण धर्मण कौत भगवत नामस्मर कौत यथा यथा आचरण तथा कि मोक्ष स्वयम प्राप्येत mm. मोक्षा की ना अंती अस्मकं श्लोक स्मर अन्तकाले च मामेव स्मरन् मुक्त्वा कलेरं यः प्रयाति सह मद्भावं याति नामस्मरणं कुर्वन् भगवतः प्राप्ति कथं भवति नामस्मरणे भगवत् भगवतः अधिष्ठाने सर्वं यथा वयम् उक्तवान् तत्र सर्वम् इदं मम इदं सर्वं भगवत् इति तद्धर्ममार्गस्य आचरणम् अस्माकं संसारे यत् कर्तव्यकर्माणि कर्तव्यकर्म कर्माणि सन्ति तानि सर्वाणि करणीयानि कर्तव्यपालनं करणीयं धर्ममार्गस्य आचरणं करणीयं मोक्षः स्वयमेव प्राप्येत् मोक्षः प्राप्येत् कर्मणि प्रयोगः अस्ति कर्म इति मोक्षरूपेण मोक्षः स्वयम् एव लभ्यते तत्र अस्माभिः किमपि तत्र मोक्षं प्रति गच्छामि इति न स्वयमेव आगच्छ इति विचारः ततः अन्तिम किं दत्तमस्ति ततः ततः ततः देवस्य नानोदयं प्राप्नोति देवयः Uh, जानाति uh, किं किं करणीयं uh, मोक्षप्राप् प्राप्नो इति hmm. सा तो ते साधूनां uh, नमस्कृत्वा गृहं गतवान् गृहं प्रति सः गतवान् सः अव अवगमनं सम्यक् रीत्या अभवत् किं करणीयम् इति सः ज्ञात्वा गृहं प्रति गतवान् एवम् इति um he understood he doesn't have to leave his home for that yeah at the time asmakam yah -hmm. shlokah antkalech mameva smaran -hmm. muktwa kalevaram kevalam -hmm. atra bhagavat nam mm eva vadatu anya kimapi na karotu puja yet ritual sidhi vaam vadama chitta devagriyam sthinaasti eh sha bhavam कर्तव्यकर्माणि यानि सन्ति तेषाम् आचरणं तु मध्ये सांसारिकजीवनस्य व्यावहः न अभवत् यः मोह मनसि अस्ति मोह तु अस्ति एव तत्र एकमस्ति खलु चर्पटपञ्जरी आशापिण्डं ah, ah. yeah, ah. अङ्गं गलितं जयन्ती भगिनी स्मरति वा अङ्गं गलितं पलितं स्मरन्ति भगिनि भजगोविन्दं तस्य अङ्गं गलितं बलितं मुण्डं दशन दशा दशनविहितं जातं तुण्डं वृद्धो याति गृहीत्वा दण्डं तथापि न मुच्यते आशापिण्ड सत्यं सत्यम् उत्तमं तत् अस्ति आशा नाम मनुष्याणां काचित् आश्चर्यशृङ्खला इति वदति खलु तथैव uh -huh. आशा आशा आशा आशायाः परिवर्तनम् अन्तर अनन्तरं तृष्णा आशायाः परिवर्तनान्तरं तृष्णाः आशाया परिवर्तना तृष्णा भवति अनन्तरं लोभः जायते लोभः कामः क्रोधः सर्वः uh -huh. आम् जायतो विषयां पुं सह ते जायतो विषयां पुं सः उपजायते संगस्ते अस्तु अधुना सर्वे वदन्तु एकमेकं श्यामलाभगिनी अस्ति अद्य श्यामलाभगिनी भवती पठितवती वा कथा वदतु कथायाः विषये कथायाः विषये वदति वा धर्ममाचरति धर्ममाचरणेन एककार्यं करोति चेत् मम वयं सम्यक् तपस्वी एव तत्र साधु सा, सा, साधुपुरुषस्य सत्त्वं कुत्र वर्तते धर्ममार्गस्य आचरणं अत्र अहमेकं स्मरामि अष्टादशपुराणेषु व्यासमुनेः तत्र रचना अस्ति कृते पुण्यं परोपकारं पापम् इति परपीडा तथैव पापाय हा इत्युक्ते पापं पापम् आचरणीयम् इत्युक्ते परपीडा स्य पुण्य पुण्य इति बहु सुलभ अस््यकार्युक् नोपकार यहाँ से तथा परम करीय तथे अष्टपुराणु एक सारूपेण महर्षि उतवासी तथा धर्म आचरण मोक्ष भवती सम्यक् भवति यथाशक्ति सत्यं यथाशक्ति भगवत भगवतस्मरणं धर्ममार्गस्य आचरणम् एवम् उत्तममस्ति उत्तमम् उक्तवती अग्रिमे अन्य वीणा भगिनी अनन्तरं जयन्तीभगिनी अम्बिकापतिमहोदयकथायाः विषये वदतु वाक्यद्वयं वदामि वा भगिनी पचतु भगिनी पचतु अहं भगवद्गीताया श्लोकद्वयं वक्तुम् इच्छामि कर्मन्नैव हि संसिद्धि आस्थिता जनकादयः लोकसङ्ग्रहमेवा सम्पश्यन् कर्तुम् अर्हसि इति श्लोकं द्वितीय ऐ मीन् अध्याये अस्ति ऐ मीन् तत् अपि तादृशम् अर्थम् एव सूचयति अनन्तरम् इदानीं वयं पश्य दृष्टवन्तः खलु अन्तकाले इच्छ मामेव तस्य अग्रिम अग्रिमश्लोकः अपि वदति यं यं वापि स्मरणं त्यजन्त्यन्ते कलेवरं तं तं तं तं तमेवैति कौण्टेय सदा तद्भावभावितः इति कृष्णः उक्तवान् अस्य अस्य समये अहं भागवतपुराणस्य बा, अजामिल उपाख्यानं कथा अपि स्मरन्तुम् इच्छामि जडबरदः अपि जडभरदस्य कथा अपि अस्माकं मनसि भवति इदानीं ये, ये भा यत् भावं यं यं भावं स्मरन् भवति अन्तिमकाले तं तं भावम् एव सः स्वीकृत स्वीकृतवान् कृत, अस्ति अग्रिमे अतः एव भगवान् सूचयति तत् तत्र खलु अग्रिमम् एव श्लोकमस्ति तत्र श्लोकः अग्रिमे श्लोके तत् अष्टमे अध्याये एव तद् दत्तमस्ति सत्यं यं यं माव आम् आमां तथैव सत्यं सत्यं अम्बिकापतिमहोदय हा उत्तममस्ति भगिनि धन्यवादः अम्बिकापतिमहोदय प्रतिदिनं सदा भगवत् स्मरणे स्मृत्य कार्यं कुर्वन्तु मोक्षं प्राप्तुं शक्नोति अस्तु सम्यक् सत्यं सत्यं तत् स्मरणं भगवतः स्मरणं नित्य नित्यं भवेत् सर्वदा भवेत् निरन्तररूपेण सत्यम् उत्तमम् राधा भगिनी विना भगिनी वदति वा कथा विषये भगिनी एतत् श्लोकम् अपि तदेव वदति खलु अभ्यासयोगयुक्तेन चेतस नान्यगामिना परमं hmm. पुरुषं दिव्यं याति पार्थानुचिन्तयन् अभ्यासयोगेन hmm. चेतसा अनन्य अनन्यचेतसा इत्युक्ते न अन्य मनसि अन्य किमपि न भवेत् भगवतः स्मरणम् एव इत्युक्ते यथा तद भगवतः कृपया यत् अहं प्राप्नोमि तदेव मम जीवनं तदेव मम कर्तव्यं ततः अहं निश्चयमेव निश्चयेन करोमि तत्र युद्धस्थले भगिनी किम् अभवत् अर्जुनस्य पुरतः युद्ध आगतः मनसी उद्भवत सब नुद्धम कौन कर्तव्याच्युत सह कर्तव्य सह सज्ज तदा भगवदी भगवता मुखा विनुसृता चिन्तनं तु भवेत् कर्तव्यस्य त्यजनं न भवेत् मोहाविष्टः मा भवतु इति भजिनी भजिनी, भजिनी। धन्यवादः धन्यवा भगिनी सम्पूर्ण अष्टमाध्यायः uh survey and this the thing which says which is said in the 8th chapter is said bhagavani ashtama ashtame adhyay halo ha ha akshara brahma yoga that's what it is said how dantkale and how to leave your body what to do how to think and all isn't it satyam brahma yoga katham bhavati akshara yasya aksharah na bhavati yasya नाशनं न भवति इति प्रायेत् इति तस्य विषये एव अस्ति तत् राधा भगिनी वक्तुम् इच्छति वा आं भगिनि कथायाम् एवमस्ति मम दूरे किमपि गमनीयं न आवश्यकं मोक्षकृते गृहे अपि मोक्षं प्राप्नुवन्ति यदा अहं सर्वदा ईश्वरस्य ध्यानं करोति चेत् hmm. तर्हि तत् ततः ततः एव मोक्षं प्राप्नुयामः <stos> अधिष्ठान इति धन्यवादः भगिनि प्रतिपादितवन्तः अन्य कोऽपि वक्तुमिच्छति वा अम्बिकापतिमहोदय पूर्णमिदं पूर्णात् पूर्णमुदक्ष्यते पूर्णस्य पूर्णमाधाय पूर्णमेव अवशिष्यते ओं शान्ति शान्तिशान्तिः हरिः ओं तत्सद् श्रीगुरुभ्यो नमः हरिः ओम् हरि ओं ओम सर्वेषां होलीपर्वणां शुभाशयाः धन्यवादः होली पर्व शुभाशयाः